नारायणीयं दशकं फिफ्टि सेवन् मीटर् गीति रामसखक्वापि दिनेकामदभगवन् गदो भवान् विपिनं सूनुभिरपि गोपानां धेनुभिरभिसंवृदो भी लसद्वेषः सन्दर्शयन् बलाय स्वैरं वृन्दावनश्रियं विमलां काण्डीरैः सह बालैर्भाण्डीरकमागमो वडं क्रीडन् तावत्तावकनिधनस्पृहयालुर्गोपमूर्तिरदयालुः दैत्यप्रलम्बनामा प्रलम्बबाहुं भवन्तमापेदे जानन्नप्यविजानन्निवतेन समं निबद्धसौहार्दः वडनिकडे पडुपशुपव्याबद्धं पा द्वन्द्वयुद्धमारब्धाः गोपान्विभज्य तन्वन् सङ्घं बलभद्रकं भवत्कमपि त्वद्बलभीरुं दैत्यं त्वद्बलगदमन्वमन्यधा भगवन् कल्पितविचे दृवहने समरे परयूथकं स्वदयिदतरं श्री दामानमधस्थाः पराजितो भक्तदा सदां प्रथयन् एवं बहुषु विभूमन् बालेषु वहत्सुवाह्यमानेषु रामविजितः प्रलम्बो जहारतं दुरतो भवद्भीत्या त्वद्दूरं गमयन्तं तं दृष्ट्वा हलिनिविहिदगरिमभरे दैत्यस्वरूपमागाद्यद्रूपात् स हि बलोऽपि चकितोऽभूत् उच्चतया दैत्यतनोस्त्वन्मुखमालोक्यदूरतो रामः विगदभयो दृढमुष्ट्या भृशदुष्टं सपदि पिष्टवानेन हत्वा दानवववीरं प्राप्तं बलमालिलिङ्गिधप्रेम्णा तावन् मिलतोर्युवयो शिरसि कृता पुष्पवृष्टिरमरगणैः आलम्बो भुवनानां प्रालम्बं निधनमेव मारचयन् कालं विहाय सद्यो लोलम्बरुचे हरे हरक्लेशान् सर्वत्र गोविंद सङ्कीर्तनं गोविंद गोविंद